नमस्कारः नमो नमः भगिनी नमो नमः नमस्कारः अस्तु वीणा भगिनी प्रार्थनया आरम्भं करोति वा अस्तु भगिनी हरिः ओं श्रीगुरुभ्यो नमः श्रीकृष्णाय नमः एकं निमिषं भगिनि शुक्लाम् वरदरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत्सविघ्नोपशान्तये <laughs> शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् गमनयनम् योगिहृद्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् या कुन्देन्द तुषारहार धवला या शुभ्रवस्त्रान्विता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्माश्चितशङ्करप्रभृतिभि देवैः सदा पूजिता सा पातु सरस्वती भगवती निश्येषजापह हरि ओम् श्रीकृष्णार्पणमस्तु धन्यवादः पुनः एकवारम् सर्वेषाम् स्वागतम् नमो नमः गतसप्ताहे वयम् आत्मनेपदीरूपाणि तस्य अध्ययनम् आरब्धवन्तः तत्र वयं दृष्टवन्तः कथम् आत्मनेपदीरूपाणि सन्ति तत् एकवारं तत् पुनः एकवारं तस्य अवलोकनं कृत्वा वयं पुस्तकं पश्यामः तत्र यत्किमपि दत्तमस्ति तस्य अध्ययनं कृत्वा अनन्तरम् अन्तिमे कथायाः कुर्मा वयं स्क्रीन शेयर स्क्रीन् शेर् करोमि पश्यन्तु अधुनाता स्मर तत्मनेपद्यूपा तत् भ्रातृलनमें कथा वातव अनम आत्मनेपथ धातून परी धातून तत्व एक मध्यमपुरुष प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष एतधातोः कृते सः धातोः कृते अनन्तरम् उच्चैः पठत तत् अपि वयं कृतवन्तः एकवारम् आरम्भे तत् एतधातोः लट्लकाररूपाणि आत्मनेपदीरूपाणि कथं भवति एकवारं तत् पठित्वा वयं वयम् अग्रे अस्तु भारतमहोदय नमो नमः नमस्कारः नमो नमः भगिनी भवान् पठति वा एधातोः रूपाणि आम् एधातो आम। लट्लकारे रूपाणि एवं भवन्ति प्रथमपुरुषः मध्यम पुरुषः एदेते आम् न सारे महोदय तत् प्रथमपुरुषे एकवचन एधते द्विवचन एते बहुवचन एधन्ते एव मध्यमपुरुषः एधे द्विवचनवचनम् एदेथे बहुवचनम् एतद्वे उत्तमपुरुषः एकवचनम् एकवचनम् एधे द्विवन ऐ बहुवचन ए, बहु ए महे। तथा धा सह धावती प्रथम पुषा एक सहते दिवचनेवचन न दृश्यते खलु न दृश्यते अधुना दृश्यते भगिनि प्रथमपुरुषः एकवचनं एकवचनं सह सहते द्विवचनं सहेते बहुवचनं सहन्ते मध्यमपुरुषः एकवचनं सहसे द्विवचनं नमस्ते बहुवचनं सः द्वे उत्तमपुरुषः एकवचनं सहे द्विवचनं सः वहे बहुवचनं सः महे एतदस्ति Uh, आत्मनेपदी रूपाणि uh, तत्र भारतमहोदयः uh, भवान् स्मरति वा सः तौ ते तत् स्मरति वा मध्यमपुरुषस्य कृते सः एधते तौ एदे ते, ते, ते एधन्ते एवं भवति तत् मध्यमपुरुषस्य कृते उत्तमपुरुषस्य कृते तत् भवान् स्मरन्ति वा रूपाणि कानि हा वदति वा सः एते ते एधन्ते मध्यमपुरुष किमस्ति त्वम् एतसि एतसे त्वम् किमस्ति सः तौटे त्वं युवाम् त्वं युवाम् एदे एदद, द्वे समीचीनम् उत्तमपुरुषः कथमस्ति अहम् एदे आवाम् एदावहे वयम् एदामहे समीचीन समीचीन तथा सहधा विषय वजती प्रथम पुष ते सहते सहते, ते आ, उत्तम मध्यम पुष्े त्वं सहसे युवां सहेथे यूयं सह द्वे अहं सहे उत्तमम् एतदेव वयम् अग्रिमे तस्य इतोपि तत्र अभ्यासरूपेण वर्तते तत्र तदपि वयं कुर्मः धन्यवादः भारतमोद उत्तममस्ति धन्यवादः अधुना आगस्ट् मोदे भवान् पठति वा एतेषु वाक्येषु ततः आरभ्य अम्बगिनी एतेषु वाक्येषु परस्मैपदी क्रियापदानि प्रयुक्तानि सन्ति तत्समानार्थकानि आत्मनिपदी क्रियापदानि कोष्टके दत्तानि सन्ति ततः उचितं क्रियापदं चित्वा रिक्तस्थाने लिखत अत्रापि किमस्ति तत् साडिका अस्ति तत्र वयं सर्वे इदानीं जानीमः सः तौ ते तौ सः तौ त्वं युवाम् युयम अहम् आवां वयं तथैव रूपाणि कथं भवति तत्र लिखितानि सन्ति हा तत् उदाहरणार्थं तत्र वयं भारतमातरं प्रणमामः प्रणमामः अत्र किं रूपमस्ति प्ररस्मैपदी उत्तमपुरुष बहुवचनान्तरूपं प्रणमामः अत्र वन्दधातु यदि योजयामः तदा किं भवति वन्दामहे यतो हि तत् अधुना एव वयं पठितवन्तः खलु तत् एधे एधावहे इति भवति तथैव अत्र किं भवति वन्दामहे अतः तत्र वन्दामहे इति लिखितमस्ति तथैव करणीयम् अग्रिमं पठतु ईश्वरः ईश्वरः कष्टात् रक्षति अधुना किं भवितुम् अर्हति आत्मनेपदीरूपम् ईश्वरः भक्ता कष्टात् किं बहु उत्तमं बहु उत्तमं तत्र त्रैङ्गरक्षणे इति धातु अस्ति त्रैङ्ग इति तत् अपगच्छति तस्य इच्छज्ञा भूत्वा इति धातु और रक्षण इति त्रायते, कष्टात कष्टात कष्टा रक्षती कष्टाते अग्रिमे चिंत किं आ, बहु सम्यक् मन मन इति धातु मन इत्युक्ते अनुमानं करणीयं वा चिन्तनं करणीयं मनसि एव तत्र किञ्चित् चिन्तनं यदा दिवादिगणस्य रातु मन्यद्वे बहु सम्यक् बहु सम्यक् अग्रिमे तौ आकाशं पश्यतः तौ आकाशम् विक्षेते, वी, वीक्ष विक्षेते वीक्ष तत्र विक, इक्ष इति धातु तत्र वि इति उपसर्ग वीक्षेते इच् सि ओब्जर् वीक्षेते वीक्षते वीक्षन्ते इवं रूपाणि बहु सम्यक् बहु सम्यक् अग्रि अग्रिमे सत्यं वदत वदतः चनम् भाष्येते बहु सम्यक् अग्रिमे बालिकाः चित्रं दृष्ट्वा तुष्यन्ति बालिकाः चित्रं दृष्ट्वा तुष्यन्ति किं भवितुमर्हति मोदन्ते मोदते मोदेते मोदन्ते प्रथमपुरुष बहुवचनान्तरूपं बहु सम्यक् अग्रिमे अहं देवं प्रणमामिं वन्दे सम्यक् अहं देवं वन्दे अग्रिमे वयं विश्वशन्तिम् इच्छामः कामयामः महे कामयामहे सम्यक् सम्यक् बहु सम्यक् अग्रिमे वयं मार्गे सन्ति ते मार्गे वर्तन्ते वर्तन्ते उत्तमम् वर्तते वर्तेते वर्तन्ते वर्त उत्तमम् अन्तिमम् त्वं कीर्तिं प्राप्नोषि hmm. लभसि बहु बहु दन्यवाद। धन्यवाद धन्यवादः धन्यवादः अधुना सर्वे एकवारम् अत्र पश्यन्तु तत्र प्रथमं वाक्यमस्ति वयं भारतमातरं प्रणमामः तस्य प्रणमामः इति परस्मैपदीरूपं तस्य आत्मनेपदीरूपं भवति वन्दामहे कह भेद परस्पदी धातो धाव आत्मनेपदी धातव तदा वक्तव आसम क्रिया फल यदा कर्ता प्रति गर्ता क्रिया प्राप्न तदा धा आत्मनेपदी धा उच्य पश्यु वंदा मंद धा तत्मनेपदी तस् फलं फलप्राप्ति कर्ता एव प्राप्नोति रक्षति त्रायते त्राय हा? त्रा त्रै इति धातु चिन्थयथ तत्र आगच्छति मन्यद्वे मन इति धातु अवलोकनं करणीयं चिन्तनं कर् अनुमानं करणीयं चिन्तनं करणीयम् मन तत् अचित एक मनसी खु अत तत्मनेपदी धा पश्यत दृश् धा पश्यत परेपदी रूप पर आत्मनेपदी धा वीक्षे ऋपम वीक्ष इक्ष अवलोकने अवलोकन करनीय अदथ वदधा कृते भाष इति रूपम् आगच्छति भाषेथे भाष तुष्यन्ति कृते मोदन्ते तत् मोद इत्युक्ते मनसि एव तत्र हर्षस्य जननं भवति तत् मोद इति मोद इत्युक्ते हर्ष प्रणमामि इति अस्ति चेत् तत् वन्दे इति आगच्छति इच्छामः इषु धातु तदा मयामह तमयाचा सी वर्तंटे सती अन प्राप्शि तभ लाभ लाभ स्वयं लाभ बवती अतः तरह लभधा आत्मनेपदीशि परस्मेपदी तत् कथम करनीय एतेषां वाक्यानां वारं वारं पठनं कृत्वा कह भेदः वा तत्र प्रण माम इत्युक्ते नम धातोः रूपं नम वन्द भेदः कः रक्षत्रयी त्रयी आत्मनेपदी धातु कः भेद अस्य मनसि एतत् केवलं चिन्तनम् अस्माभिः करणीयम् इति अस्ति परन्तु भारतमहोदयः भारत अपि तथैव उत्तम प्रकारेण प्रकार अभव अस्त अचि भिन्न प्रकार वीणा भगि वीणा भगिनी अस्त वीणा भगिनी तयते रक्षति तत् त्रायते इति धातु स्वीकृत्य तत् त्रै इति धातु अस्ति तत् त्राय इति भवति तत् त्रायते इति रूपं स्वीकृत्य भवती प्रथमपुरुष त्रिषु वचनेषु तथैव मध्यमपुरुष उत्तमपुरुषस्य विषये वदति वा chapter... हा अहं प्रयत्नं करिष्यामि भगिनि त्रायते त्रायते त्रायन्ते यसे त्राय त्रायेथे त्रायधवेये त्राये, त्राया त्रायामहे उत्तममस्ति उत्तमम् अधुना मोदन्ते विषये अपि वदति वा सर्वाणि रूपाणि मोद हा भगिनि अहं मोदते मोदेते मोदन्ते मोदते मोदेथे मोदध्वे मोदे मोदामहे मोदामहे उत्तममस्ति अधुना तत्र मन्य कथं भवति मन्यते वा मन्यते मन्येते मन्यते हा मन्यते मन्येते मन्यन्ते मन्यते मन्येथे मन्यध्वे मन्ये मन्यामहे मन्यामहे उत्तमम् उत्तममस्ति अधुना किञ्चित् प्रयत्नं करोतु प्रयत्नं कामयामहे कथं भवति सर्वाणि रूपाणि कामयामहे का, तु तत्र उत्तमपुरुष बहुवचनं कामयामहे कामयामहे hmm. कामय आ, कामयते कामयेते uh -huh. वा सम्यक् सत्यं योग्यं कामयते कामयेते कामयन्ते hmm. कामय कामयेथे कामे कामदध्वे काम कामयध्वे कामये कामयध्वे कामे कामावहे कामावहे वा अत्र किमस्ति भवती तत् कामयते इति उक्तवती खलु अह कामयते वयं सर्वे प्रत्यय प्रत्ययाः के तत् केतत, सर्वे जानीमः ते इते अन्ते से इते द्वे इ वयम् एतत् सर्वं वयं जानीमः हा अधुना कामय इति कामय अधिकम् ई भवति चेत् कु किं भवति गुणभूत्वा कामये यथा भवती मन्दे इति उक्तवती वन्दे इति उक्तवती तथैव अत्र किं भवति कामय कामय विल्क्स् कामय अधिकं वहे कामया वहे कामयामहे तथैव कामय कामये, कामये। अहं कामये अहं कामये कामयामहे कामयामहे उत्तमम् धन्यवादः धन्यवादः भगिनी अस्तु अग्रिमे जयन्ती भगिनी अग्रिमे पठति वा आम् पठामि भगिनि वाक्यम् अवधानेन पठत द्वितीयवाक्यस्य कर्तृपरं पदं दृष्ट्वा वाक्यानि परिवर्तयत सर्वे विजयं कामयन्ते अहं विजयं कामये hmm. यूयं नितरां मोदध्रे hmm. तौ नितरां मोद मोदे मोदते मोदेते तौ मो युव युव तौ तौ आं तौ नितरां मोदेते योग्यम् दुर्योधनः आचार्यम् उपसङ्गच्छते उपसङ्गच्छते दुर्योधनः सारि त्वां त्वां त्वं त्वाम् आचार्यम् उपसङ्गद्वे दुर्योधनत्वम् अस्ति खलु दुर्योधन आचार्यम् उपसङ्गच्छति त्वं किं भवति त्वम् आचार्यम् उपसङ्ग इति मध्यमपुरुष एकवचन् खलु त्वम् आम् अस्तु बेनि सारि उपसङ्गसे उपसङ्गसे उपशेताः संस्कृतेन भाषन्ते यूयं संस्कृतेन भाष्यद्वे भाषद्वे भाषद्वे सत्यं बालाः स्पर्धन्ते भवन्तौ भवन्तौ स्पर्धेते सत्यं के युद्ध के युद्धात् पलायन्ते के युद्धे <laughs> पलायन्ते के के युद्धात् सारि कौ युद्धात् पला पलायेते पलायेते सत्यम् वयं धर्मरक्षणम् अपेक्षामहे hmm. आवां धर्मरक्षणम् अपेक्षावहेक्षामहे ah, सः चमूं वीक्षते युवाम् hmm. युवां, युवां चमूं वीक्षेते hmm. त्वं स्यन्दने विराजसे ते hmm. स्यन्दने Hmm. रि ते no. ते पुनः बहुवचनं विराजन्ते योग्यमेव योग्य भवती यद् उक्तवती विराजन्ते क्षत्रियः युद्धं लभते भवन्तः युद्धं लभ भवन्तः युद्धं लभन् लभन्ते लभन्ते सत्यं ते महीं ुञ्जते <laughs> त्वां महीं भुञ्जसे भुञ्जसि भुञ्जसि <laughs> कः विषयान् उपसेवते कः विषयान् उपसेवते तौ विषयान् उपसेवेते सर्वे भगवतः सर्वे भगवतः मार्गम् अनुवर्तन्ते वयं भगवतः मार्गम् अनुवर्तामहे अनुवर्तामहे आम् अनुवर्तामहे सत्यं धन्यवादोऽ अनुवर्तामहे सत्यम् धन्यवादः अधुना अत्र एव तत्तु अन्तिमः भागः अस्ति आत्मनेपदे अनन्तरम् अग्रिमे वर्गे वयं लोटलकार कुर्मः परन्तु तस्मात् प्राक् किञ्चित् पुनरावर्तनं कृत्वा वयम् अग्रे सरेम हा अधुना रमाभगिनी अस्ति खलु रमा भगिनी अस्ति भगिनि नमस्ते तत्र यूयं नितरां मोदध्वे इति एकं वाक्यं तत्र दृश्यते यूयं नितरां मोदद्वे तदा तौ आगच्छति चेत् तत्र मोदध्वे इति रूपपरिवर्तनं भूत्वा तत्र मोदेते इति जयन्तीभगिनी उक्तवती तौ मोदेते अधुना भगिनी भवती mm. प्रथमपुरुषतः सः सः तौ ते त्वं युवां mm. यूयम् अहम् आवां वयम् सर्वं hmm. तत्र सर्वाणि कर्तुपदानि योजयित्वा वाक्यानि रचयति वा अस्तु भगिनी <coughs> यूयं निद्रां मोदत्वे hmm. सः hmm. निद्रां hmm. मोदते hmm. मोदते सत्यम् hmm. दुर्योधनः न सः सः तः आरम्भं कुरु सः नितरां मोदते तौ नितरां तौ नितरां मोद मोदे एवमेव द्वितीयवाक्यमपि मध्य मध्यमपुरुष दुर्योधन् मास्तु अत्र यूयं तत् मध्यमपुरुषत्वम् इति स्वीकरोतु त्वं नितरां त्वं नितरां मोद् मोदे मोदसे मध्यमपुरुष मो मोदसे अत्र पश्यतु भगिनि अत्र अस्ति एधसे मोदसे ते इथे अन्ते ते इथे द्वे ई वहे महे तथैव पृच्छन्ति खलु तथैव वदतु त्वं नितरां मोदसे त्वं नितरां मोदसे युवाम् ुवां युयं त्वं युयुवा युवां नितरां मोदे अनन्तरं यूयं नितरां मोदद्वेदद्वे हा अधुना अन्तिमा अन्तिम अन्तिमा पङ्क्ति उत्तमपुरुषम् आगच्छतु अत्र अहम् अहं नितरां मो मोदे मोता मोदे मोदे मोदे वयं नितराम् आवां प्रथम अनन्तरं द्विवचनम् आवां नितरां नितरां मोतामहे वयं नितरां मोतामहे उत्तमम् अधुना अग्रिमं वाक्यं स्वीकरोतु दुर्योधन आचार्य उपसङ्गच्छते आचार्यम् उपसङ्गते उपसङ्गच्छते अधुना आरम्भं करोतु अधुना सः तः आरम्भं करोतु सः सः दुर्योधनः दुर्योधन त्यजतु तत्र कर्तुरूपेण सः तौटये Ah, uh, ः आचार्यं सः आचार्यम् उपसङ्गन्सङ्गते आचार्यम् उपसङ्गेते उपसङ्गच्छेते उपसङ्गच्छेते सत्यम् अग्रिमे ते आचार्यम् उपसङ्गन्ते उपसङ्गच्छन्ते गच्छन् उपसङ्गच्छन्ते त्वम् अधुना त्वम् आचार्यम् उपसङ्गच्छन् ते गच्छति गच्छति युवाम् आचार्यम् युवाम् आचार्यम् उपसङ्गच्छन् उपसङ्गच्छद्वे त्वां युवां यूयम् yu यूयम् yu आचार्यम् mm. आचार्यम् उपसङ्गच्छद्वे ah, उत्तमम् अधुना उत्तमपुरुषम् आचार्यम् उपसङ्गन्ते उपसङ्गन्ते न अहम् आचार्यम् उपसङ्गच्छे सङ्गच्छे एवं भवति अत्र पश्यतु उपसङ्गच्छे इति भवति तत्र एकं वक्तुम् इच्छामि सर्वेषां कृते सर्वेषां कृते वदामि अत्र किमस्ति तत्र संयुक्त uh, च, अस्त चुकी जॉयिंट् वर्ड संयुक्त अक्षर तदा तत्र आघात, किंकरणीय तघात जानती तघात उपस ग उच्चारण कौर अन किंचितकार से उच्चारण करता आघात उपसंग उपसङ्गच्छ इति तदा सम्यक् भवति उच्चारणं किञ्चित् इत्युक्ते तत्र यु ह् टु पूल् देट् इत्युक्ते तत्र संयुक्त अक्षरे प्रथमः वर्ण यत् अस्ति तत् प्रथमः वर्ण तत् पूल् देट् वर्ण टुवर्ड्स् ग हा? अत्र उपसङ्गच्छते उपसङ्गच्छते इति तेन तत् सौकर्यं भवति उपसङ्गच्छते वयं वक्तुं शक्नुमः हा अधुना अहम् आवाम् आचार्यम् उपसङ्गच्छेत् अनन्तरं चेसङ्ग् गच्छामहे उपसङ्गच्छामहे उपसङ्गच्छामहे वयम् आचार्यम् उपसङ्गच्छामसङ्गच्छामहे उत्तममस्ति अधुना एकम करोतु अग्रिमं भाषन्ते तेन मनसि दृढीकरणं भवेत् इति तत् अन्तिमः भागः अस्ति अभ्यासस्य आत्मनेपदी अतः अहं वारं वारं तत् पुनरावर्तनं कारयामि अत्र हा भाषन्ते इति रूपं स्वीकृत्य करोति सः भाष्यन्ते भाषते इति सः भाष भाषन्ते संस्कृतेन भाषते सः सः संस्कृतेन भाषते भाषते सः संस्कृते तौ संस्कृतेन भाष भाष्येते सः संस्कृतेन भाषन्ते ते संस्कृतेन भाषन्ते सहातौते सहातौ अधुना ते मध्यमपुरुष त्वं संस्कृतेन भाष भाष्यन् भाषते भाषते युवां संस्कृतेन भाष्येते युवां यू यूयं संस्कृतेन भाषद्वे भाषद्वे अहम् अहं संस्कृतेन भाषे अहं संस्कृतेन भाषे वयं संस्कृतेन भाषामहे अस्ति आवाम् आवाम् आवाम, संस्कृतेन भाषया वहे वयं संस्कृतेन भाषाम् तथैव तत् सरावेन एव सर्वं चिन्तयति उत्तममस्ति परन्तु उत्तममस्ति भवतः रमा भगिनी धन्यवादः अधुना पुनः एकवारं तत्र आगस्टु भारतमहोदय भवान् आरम्भं करोति वा स्पर्धन्ते ततः आरभ्य स्पर्धन्ते तत् सः स्पर्धते तत्र आरम्भं करोतु अस्मि राधा राधा भगिनी अस्ति वा श्याम्यम् अहं न अस्तु अस्तु अस्तु हा भवती श्यामला श्यामलाभगिनी अपि अस्ति वा ओम एकवारम् अहं स्क्रीन् शेर् करोमि तदा क्षम्यतां क्षम्यताम् अधुना भरतमहोदयः किञ्चित् तिष्ठतु भवान् राधाभगिनी अनन्तरं श्याम्लाभगिनी हा हा राधाभगिनी स्पर्धा वदतु स्पर्धन्ते स्पर्धते तौ स्पर्धेते ते स्पर्धन्ते त्वं स्पर्धसे युवां स्पर्धेते यूयं स्पर्ध्वे स्पर्धे आवां स्पर्धामहे वयं स्पर्धामहे उत्तमम् अग्रिममपि करोतु े युद्धात् पलायन्ते सः युद्धात् पलायते तौ युद्धात् पलायेते ते युद्धात् पलायन्ते त्वं युद्धात् पलायसे युवां युद्धात् पलायेते यूयं hmm. युद्धात् पला पलायध्वे अहं hmm. युद्धात् पलाये आवां युद्धात् वयं युद्धात् अग्रिमे वयं धर्मरक्षणम् अपेक्षामहे सः धर्मरक्षणम् अपेक्षते तौ धर्मरक्षणम् अपेक्षेते ते धर्मरक्षणम् अपेक्षन्ते त्वं धर्मरक्षणम् अपेक्षसे युवां धर्मरक्षणम् अपेक्षेथे यूयं धर्मरक्षणम् अपेक्षध्वे अहम् धर्मरक्षणम् अपेक्षे आवां धर्मरक्षणम् अपेक्षामहे वयं धर्मरक्षणम् अपेक्षामहे उत्तमम् उत्तमं सम्यक् धन्यवादः भगिनी अधुना श्यामला भगिनी करोति वा सः चमूं वीक्षते तत् करोति वा भगिनि प्रयत्नं करो सः सः सः चमूं वीक्षते तौ चौ चमू वीक्षन्ते वीक्षेते तौ च वीक्षेते ते वीक्षीक्षेते वीक्षन्ते ते चमूं वीक्षन्ते त्वं त्वं चमुं वीक्ष्येते त्वं चमुं वीक्षीक्षसे आवां चुवां त्वां चत्वां चमुं युवां चमों वीक्षेथेथे त्वां यूयं च यूयम् एकमिट् यूयं वदतु यूयं चमो यूयं चमो वीक्षे यूयं चमुं वीक्षद्वे अधुना उत्तमम् उत्तमपुरुषः अहं चमुं वीक्षते वीक्षे वीक्षा आवां समूं वीक्ष्यन्ते क्षामहे परतुं चिक्षामहे वयं आ, आ, वयं, वयं चमुं वीक्षन्ते वीक्षामहे वयम् मुं वीक्षामहे वदतु वयं समु वीक्षामहे अधुना अग्रिमं करोतु त्वं स्यन्दने विराजसे वदतु सः चन्दने सः स्यन्दने विराजसे जते विराजते वदतुः स्यन्दन विराजते तौ स्यन्दन विराज विराज विराजेते विराजे विराजेते ते ते स्यन्दने विरा विराजते विराजन्ते विराजयते विराजन्ते त्वं त्वं त्वं स्यन्दने विराजसे विराजसे युवां युवां स्यन्दने यूय युवां स्यन्दने विराजये विराजेते विराजेते विराजेते अस्तु यूयं विराजेते यूयं स्यन्दने विरा विराजयेते विराजद्वे यूय यूयं स्यन्दने विराजत्वे Jadve, aham. Ah, aham, ah, े उत्तमपुरुषः अहम् अहं स्यन्दने विराजये विराजेन्दने विराजेन्दने विराजे आवाम् आवां स्यन्दने न्दने विराजेन्दने विराजमहे विराजामहे वयं चन्दने महे महे विराजन्ते विराजामहे विराजामहे महिरा वयं चन्दने महे वदतु वयं वयं चन्दने विराजामहे आवां स्यन्दने विराजावहि वदतु आवां स्यन्दने विराजावहि योग्यं योग्यमस्ति अस्तु हा अधुना अग्रिमे तद् वाक्यद्वयं भारतमहोदय अनन्तरं वाक्यद्वयम् अवष्टमहोदय हा अनन्तरं वयं कथां प्रति गच्छामः क्षत्रिययुद्धं लभते भारतमहोदय करोति वा सः क्षत्रियुद्धं लभते सः युद्धं लभते तौ ते लभन्ते त्वं लभसे युद्धं लभेथे यूयं युद्धं लभ लभध्वे अहं युद्धं लभे आवां युद्धं लभवहे वयं युद्धं महें। करो तू, ते उत्तम अग्रिमी कौत भुंजते छ जुंजते असीकुतेजते तथा आरभ्य पट महीम महीम मुझत, वदतु मुझत, सः एकनिमिषम् अत्र किञ्चित् परिवर्तनमस्ति भुञ्जधातोः कृते एतत् एतत् मा करोतु उपसेवते इति स्वीकरोतु महोदय Okay. तत्र मनसि सन्ध्या तद् भुञ्जानप्रकारेण चलन्ति उपसेत इति सः विषयान् उपसेवते तत् करोतु कः <हा> विषयान् hmm. उपसेवते hmm? सः कः विषयान् उपसवते तत्र <हा थुँ> भवान् सः तौ ते एवं करोतु okay. सः विषयान् उपसेवते तौ Hmm? उपसेवेते उप, उप, उप, योग्य ते, hmm? ते hmm? विषयान्वन्ते hmm? उप, उप, ah. um, त्वं विषयान् hmm? उप, उपसेवसे hmm? युवां <laughs> <laughs> विषयान् उप, उपसेवेथे hmm. यूयं विषयान् उपसेव सेव द्वे सत्यम् अहं विषयान् उपसेसे सेवे योग्ये आवां विषयान् उपे सेव उपसेव सेवामहे योग्यम् उपसेवामहे उपसेवा वयं विषयान् उपसेवामहे उपसेवामहे सत्यम् उत्तममस्ति धन्यवादः अधुना अन्तिमं आगस्ट् महोदय करोतिवा, करोति वा अनुवर्तन्ते तत्र सः भगवतः मार्गम् अनुवर्तते करोति वा सः भगवतः मार्गम् अनुवर्तते तौ भगवतः मार्गम् अनुवर् ते भगवतः मार्गम् अनुवर्तन्ते त्वं भगवतः मार्गम् अनुवर्तसेवां भगवतः मार्गम् अनुवर्ते थे mm. यूयं भगवतः मार्गम् mm. अनुवार्तध्वे अहं mm. भगवतः मार्गम् mm. अनुभार्ग अनुवर्ते mm. यूवाम् भगवतः मार्ग अनन्तरम् अनन्तरं किं चेत् आवां भगवतः मार्गम् अनुवार्ता अनुवार्तावहि उत्तमम् अनुवार्तावहि मार्गम् अनुवर्तामहि आनु, एतत् अस्ति अस्माकम् उत्तमं महोदय अस्माकम् आत्मनेपदी धातूनां रूपाणि कथं प्रचलति एवं सर्व उत्तममस्ति उत्तमम् उत्तमम, पुनः पुनः तस्य पठनं पुनरावर्तनं सर्वे कुर्वन्तु अधुना एकः तत्र श्लोकः अस्ति अनन्तरं कथायाः पठनम् श्लोकं स्वीकृत्य पठनम् एतदस्ति पठतु जयन्ति भगिनी श्लोकं पठतु यज्ञराचर ग्याराच्रत, यज्ञराचरति श्रेष्ठः तत्तद्देवेतरो जनः स यत् प्रमाणं कुरुते लोकस्तदनुवर्धते अत्र mm -hmm. अनन्तरं तत्र mm -hmm. यत् यत् आचर्यते यत् मया तत्र दत्तमस्ति तपी पठतु भगिनी यद्यत् यत् यत् यत् यत् आचरति स्रष्टः तत्तत् एव इतरः जनः सः hmm? यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते इत्युक्ते किं भवति किम् अर्थ यत् यत् कार्याणि श्रेष्ठाः अनुचरन्ति तत् तदेव इतरः तत् तदनन्तरं यः जनाः सन्ति ते एव अनुच अनुचरन्ति अतः सयत् प्रमाणं कृते लोकः तत् अनुवर्तते तत् जनाः आगच्छन्ति आ, ते अपि तदेव अनुचरन्ति इति इत्युक्ते श्रेष्ठानां mm. जनानाम् mm. आचरणम् अन्यैः mm. क्रियते इत्युक्ते mm. ये जनाः श्रेष्ठजनाः इति वदामः तेषां कृते आचरणस्य कृते अतीव mm. आचरणम् अतीव महत्त्वपूर्णं भवेत् इति भवेत् इति mm. कथम् mm. अधुना mm. कथा याः नाम तथैव अस्ति किमस्ति यद्यद् आचरति श्रेष्ठः तथैव कथा अस्ति अतः भवती किञ्चित् पठतु अनन्तरम् अन्य अस्तु कश्चन यद्यदाचरति श्रेष्ठः एकनिमिषवेणि कश्चन वृद्धः आसीत् श्रमः आसीत् सारि कण्टिन्यू पेराग्राफ् कश्चन वृद्धः आसीत् तस्य गृहस्य पार्श्वे कश्चन कश्चन आश्रमः आसीत् आसीत् वृद्धः प्रतिदिनं प्रवचनं श्रोतुम् आश्रमं गच्छति स्म <imýt> अर्थं वदनीयमा तावदेव पर्यन्तं पठतु द्वितीयं परिच्छेदम् अपि पठतु अनन्तरं वदतु अस्तु भी गच्छता कालेन वृद्धस्य श्रवणशक्तिः न्यूना जाता जाता क्रमशः सः बधिर् बधिरः एव जातः तथापि सः प्रवचनं श्रोतुम् आश्रमं गच्छति स्म परन्तु सः सम्यक् प्रवचनं श्रोतुं न शक्नोति बहु प्रयत्नेन का कान्शियस् शब्दान् श्रुणोति तावदेव अधुना वदतु हा कश्चन एकस्य hmm. ग्रामे एकवृद्ध वृद्धः आसीत् तस्य गृहस्य समीपे पार्श्वे समीपे कश्चन एकः आश्रमः आसीत् वृद्धः mm. प्रतिदिनं दिने, दिने तत्र गत्वा प्रवचनं श्रुतवान् आसीत् mm. गत्वा कालेन वृद्धस्य क्रमेण कालेन mm. वृद्धस्य श्रवणशक्ति न्यूना भवति न्यूना क्रमशः सः बधिरः एव जातः बधिरव इत्युक्ते किं भेदि इति भवति खलु श्रोतुं न शक्नोति अस्तु अस्तु आम् सः श्रोतुमपि न शक् शक्नोति तथापि सः प्रवचनं श्रोतुम् आश्रमं गच्छति स्म सः तदापि तस्य इच्छा श्रवणं श्रोतुम् इच्छा अस्ति अतः सः आश्रमं प्रतिदिनं गच्छन्ति एव परन्तु सः सम्यक् प्रवचनं न श्रोतुं शक्यते शक्नोति गत्वापि किमपि प्रयोजनं नास्ति सः सम्यक् श्रोतुं न बहु प्रयत्नेन बहु प्रयत्नेन किञ्चित् किञ्चित् शब्दान् श्रोतुं शृणोति सः शृणोतिवचनं श्रोतुं न शक्नोति क्षीणा अस्ति श्रवणशक्तिः न्यूना अस्ति परन्तु प्रयत्नं करोति हा सः प्रयत्नं करोति श्रोतुं यदा शक्यते तदा तत् श्रोतुं प्रयत्नं करोति एवं धन्यवादाः विना भगिनी अग्रिमे पठति वा एकदा ततः आरभ्य एकदा वृद्धः यथापूर्वम् आश्रमं गत्वा प्रवचनं श्रोतुम् उपविष्टवान् आसीत् mm -hmm. प्रवचनस्य अनन्तरम् प्रवचनकारः वृद्धं संकेतेन पृष्टवान् mm -hmm. भवान् प्रवचनं श्रोतुम् शक्नोति किम् इति mm -hmm. वृद्धः उक्तवान् न इति तर्हि प्रतिदिनं किमर्थम् आगच्छति प्रवचनकारः mm. पुनः पृष्टवान् अधुना वदतु किम् अभवत् um, uh, एकदिनं वृद्धः um, यथा mm. प्रतिदिनं uh, आश्रमं uh, गच्छ अगच्छत् mm. um, प्रवचनस्य अनन्तरे uh, प्रवचनकारः पृष्टवान् uh, mm. um, uh, भवान् uh, वृद्ध वृद्धः श्रोतुं शक्नोति वा इति तत्र वृद्धः सङ्केतेन इत्युक्ते मै ज्येष्ठं तत् सङ्केतेन सह पृष्टवान् किं श्रोतुं शक्नोति वा इति पुनः वद भगिनी सङ्केतेन इत्युक्ते किं ज्येष्ठ are you able to listen are you able to hear that showing gestures aha uh -huh, okay okay like huh? are you ah okay, to... okay okay okay okay he is uh, uh, showing action okay ha ah, ah, ha ah, ah. maam okay ah okay okay and ya vrudha na shak sothum na shaknoti iti uptavan ha tar hi um uh, um punah prustavan Uh, mm -hmm. प्रतिदिनं किमर्थम् आगच्छति इति mm -hmm. किमर्थमागच्छति यदा श्रोतुं न शक्नु तदा किमर्थमागच्छति अत्र इत्युक्ते वेस्ट् आफ़् टैम् फोर् यू इट् इस् जस्ट् वेस्ट् आफ़् टैम् न श्रोतुं शक्नोति किमपि कस्यापि अवगमनमेव न भवति श्रवणमेव mm -hmm. न भवति तदा कथम् अवगमनं क्रियते किमर्थमागच्छति इति सः पृष्टम् अस्तु धन्यवादः राधा भगिनि अग्रिमं पठति वा आं भगिनि तदा वृद्धः विनयेन उक्तवान् स्वामिन यद्यपि अहं श्रोतुं न शक्नोमि तथापि अत्रत्यं वायुमण्डलं प्रवचनशब्दैः व्याप्तं भवति इत्यतः अत्र अधिकां शान्तिं प्राप्नोमि अन्यत्र व्यर्थं कालहरणापेक्षया अत्र hmm. उपवेशनेन मम एव अधिकः लाभः भवति hmm. कारणं एवम् अस्ति अहं मम परिवारस्य प्रमुखः अस्मि hmm. प्रायः परिवारजनाः प्रमुखं अनुसरन्ति वृद्धः विनयेन उक्तवान् अहं यद्यपि अहं श्रोतुं न शक्नोमि uh, तथापि अहं तस्य शब्दैः uh, शान्तिं ददाति uh, शृणोति इत्युक्ते शान्तिं ददाति uh, शब्दाः अहं शान्तिं ददाति अन्यत्र अहं मम कालः व्यर्थं भवति तत्कारणम् ऐ केम् हियर् सो देट् ऐ डोण्ट् वेस्ट् मै टैम् अदर्वैस् अन्यत्र व्यर्थं अपेक्षयापेक्षया टैम्पास् उपवेशनेन मम एव अधिकः लाभः भवति किं स उक्तवान् अत्र भगिनी पश्यतु स्वामी यद्यपि श्रोतुं न शक्नोमि तथा अत्रत्यं वायुमण्डलं प्रवचनशब्दैः व्याप्तं भवति इत्युक्ते किम भगिनी? इत्युक्ते श्रोतुं मम लाभं भवति तत्र वायुमण्डलं वायुमण्डलम् इत्युक्ते तत्र अट्मास्फियर् प्रवचनशब्दैः व्याप्तं भवति इति सः उक्तवान् that okay. the word inside is giving me peace that's what he said ha uh, ituk te tatra saha tase chintanam kimasti atra vayumandalam ituk the entire atmosphere mm -hmm. dhwane he tatra dhwane he uh, dhwane he spandana ni shanti ha ah, huh? ah, ah. sound vibration sound waves yeah vibrid ha in atmosphere unified mass mm -hmm. property व्याप्तम् इत्युक्ते अट्मोस्फियर् व्याप्त इक्युपाय परन्तु तत्र आफ़् देट् डिविनिटि ऐ एम् फीलिङ्ग् ओवर् इयर् अत्र अधिकां शान्तिं प्राप्नोमि अत्र अन्यत्र यदा अहं गच्छामि तदा शान्तिं न प्राप्नोमि परन्तु वायुमण्डलकारणात् वायुमण्डलं प्रवचनशब्दैः व्याप्तम् अकतया अहम अव शातिम प्रा अच्छा तदादी स्थित नायुमंडल तत्र ध्वनिया ना त्र अ प्रवचन श्री ध्वनि त आगछति अतः अहम अ व्यर्थं कालहरणापेक्षया अत्र उपवेशनेन उपवेशनेन इत्युक्ते अत्र यदा, यदा अहम् उपवेशनम् इत्युक्ते तत्र उपस्थापनम् इति मम एव अधिकः लाभः प्रथमः कारणं द्वितीयं कारणमपि सः किमस्ति यत् अन्यत् कारणम् वदति अहं परिवारस्य प्रमुख अस्मि तत् कारणं मम सर्वे अनुसरन्ति फोर् दि अदर्स् सम्यक् प्रायः परिवारजनाः प्रमुखम् अनुसरन्ति तत्र परिवारे अनुशासनं भवेत् तत् कस्य दायित्वम् अस्ति पर, परिवार अुशासन ज्येष्ठा ये जना सी ताय परिवार अशासस तोजन सामय वा निद्रायामय अन स्जा पूजा अर्चना कदा करनीय एक ज्येष्ठा ये जान पिवार सी ताय अतः सहमति प्रायः परिवारजनाः प्रमुखम् अनुसरन्ति अस्तु धन्यवादः अग्रिमे हा रमा भगिनी भवती पठति वा अहम् अत्र परिवारजनाः प्रवचनं आगच्छति तेषां हृदये भगवतं भगवतये श्रद्धा जीप्ता तिष्ठति यदि अहं न भागच्छामि तर्हि अतः श्रोतुं शक्तः अपि अहम् आगच्छ बधिरस्य वाणीं श्रुतवती प्रवचनहारणस्य महान् आनन्द आनन्दः जातः सः यस्य राक्षरस्यैष्ठदेव इति गीतायां श्रुतवान् किमभवत् तत्र भवती वदति अहमत्र आगच्छामि इति ज्ञात्वा आग। मम जनाः मम परिवारजनाः भवत्याः ध्वनि श्रोतुं न शक्नोति भगिनी सम्यक्तया अन्यैः श्रूयते वा सम्यक्तया ध्वनि न भगिनि सम्यक्तया वयं श्रोतुं कापि समस्या अस्ति इति मन्ये भगिनी पुनः एकवारं वदतु भगिनि अस्तु भगिनि मम मम परिवारजनाः श्रुतवती भगिनी श्रूयते श्रूयते मम परिवारजनाः मम परिवारजनाः मा दृष्ट्वा मम आचरणं दृष्ट्वा मम परिवारजना जनाः अपि आगच्छति प्रवचनं शृण्व शृण्वन्ति इति मम शृण्वन्ति विषये तेन तेषां हृदये भवति एतत् विषयम् मम परिवारजनाः मम हृदये तिष्ठति एव hmm. बहु स्थिरतया तिष्ठति यदि अहं न आगच्छामि तर्हि तेपि hmm. न आगच्छन्ति hmm. मम मम आचरणं दृष्ट्वा आगच्छति तर्हि hmm. अहं न आगच्छामि मम जनाः अपि न आगच्छन्ति मम मम परिवारजनापि न आगच्छन्ति अतः एव सर्वे श्रो हा वदतु शक्तः अहम् आगच्छामि अतः एव न शक्नो न श्रोतुं न शक्नोति अपि अहम् आगच्छामि इति बधिरस्य वाणीं श्रुतवतः श्रुतव स्य hmm. कार, महान् आनन्दः भवति प्रवचनकारं बहु बहु सन्तोषम् अनुभवन्ति सः यत् यदाचरति भगवद्गीतायाः श्लोकमपितवान् hmm. इत्युक्ते जनाः अनुकरण अनुकरणशीलाः यथा श्रेष्ठ hmm. जन आचरत तथा ते आचरण कुर अतः त्रेष्ठ जो आचरण सब्य भव अतः सह तत्र तेन अक्यं हृदय भगवत विषय श्रद्धा जीविता ठती नोचे किंतीमें अठानम न यदा अहम न आगमें तदा किम अतः सह अहम् आग्छा तथा जना म, मम परिवार पिवारजना ते अपी, मम कृत्वा, ते सह अम अ आगछवा आस अस्वाद भगिने तथा अलोक श्लोक तथा अस्कुब यचरती श्रेष्ठस्तव प्रमाण कुरते लोक तदनुवर्तन येष आचरती ततर जन आचरती सः यत् प्रमाणं कुरुते इत्युक्ते सः श्रेष्ठः यत् प्रमाणं प्रमाणम् इत्युक्ते तत्र प्रमाणम् इत्युक्ते वोटेवर् इस् फालोड् इत्युक्ते तत्र वोटेवर् रूल् इस् फालोड् बै द श्रेष्ठ अदर्स् आल्सो मे वाक् इन् हीन्स् पुस्टे तत् प्रमाणं सः यत् प्रमाणं कुरुते लोकः अनुवर्तते इत्युक्ते ग्रेट् मेन् हि सेट्स् अप् स्टेण्डर्ड् प्रमाणं स्टेण्डर्ड् सो देट् दर्ड् फालो एवम् अस्ति यत् यत् आचरति श्रेष्ठः तत्तत् एव इतरः जनः सः प्रमाणं कुरुते लोकः तत् अनुवर्तते इत्युक्ते तत्र नाट् ओन्लि इन् द सोसैटि परन्तु परिवारे अपि श्रेष्ठजनः श्रेष्ठजनानाम् आचरणं कीदृशं भवेत् तस्य अपि अत्र बोधः भवति अधुना एकमेकं एकम वदन्तु कथायाः विषये आगच्छन्तु अत्र सर्वे वदन्तु ज्येष्ठः पुरुषः यथा आचरति इतरे साधारणजनाः अपि प्र, तदेव आचरणं करोति सः यत् प्रमाणत्वे प्रमाणत्वेन का, स्वीकरोति तदेव इतरः जनः अपि प्रमाणत्वेन स्वीक स्वीकारं कुर्वन्ति अत्र वयम् वयं प्रमाणत्वेन जीव जीवि जीवति जीवनं करोमि चेत् करोमः चेत् अस्माकं सन्तति अपि तदेव कुर्मः चेत् तत् अतीवमहत्वपूर्ण बालकः परिवारे बालकः मातुः वा पितुः आचरणम् अनुवर्तनं करोति मातुः पितुः एव अनुवर्तनं करो बाल्यकाले सः hmm. तथैव वदति एवं खलु तादृशमेव yeah, आचरणं भवति अत्र श्रीगङ्गा शेखर भगिनी भवती प्रथमवारमेव yeah. hmm. <coughs> yes, आगतवती वा Uh, पूर्वस्मिन् वर्गे uh, अन्ये अन्य, अन्य वर्गे जस्ट, आसीत् वा भवती नस्ट् नौ अस्तु तत् सम्पर्कं कृतवती वा सरुप् महोदयं सम्पर्कं कृतवती हरि ओम् अद्य मम कक्षा स फस्ट् टैम् भगिनी सीनियर् मेल्स् सो ऐ एम् अटेण्डिङ्ग् एक्चुलि संस्कृतभारती गीता सोपानं क्लास् सो वेन् जाय् फर् द स्पोकन् क्लासस् सो ऐ रिसीव् यु मेल् टु इन् देट् ऐ सा गीता सोपानं वन् सो ऐ I have just sent you a message. Oh, a okay. I Achoo. want to... Chief, she I is my sorry. friend Mahodea. She told... Yeah, I only gave her this number. Even she is oh, interested okay. in attending the okay. class. Should I write mail to Mahodea for this haan. to attend? Yes. Yes, I want to send you a mail. Oh, haan. Okay, okay. Haan. Uh, Bhavati, come on. Welcome to Bhavati. Yes. धन्यवादः भगिनी भवती वक्तुम् इच्छति वा कथायाः विषये स्वशब्दैः वक्तुमिच्छति अस्तु अस्तु अस्तु चिन्ता मास्तु चिन्ता मास्तु हा राधा भगिनी वीणा भगिनी एकमेकं वदतु रमा भगिनी yeah we uh, we need to set uh, uh, good examples for others hmm. aham uh, sahyaacharanam so uh, samyakkaraniyam uh, karanam anya parivar janaah uh, mama aacharanam aashayadam drishwa uh, tataiwa api karoti hmm. anukaranam kurvanti hmm? anukaranam kurvanti anukaranam anukaranam kurvanti ha huh. आचरणं सम्यक् मम आचरणं सम्यक् नास्ति तर्हि ये अपि जनाः तस्य अनुसरति बेड् एक्साम्पल् सत्यं सत्यं सत्यं योग्यम् उत्तममस्ति भवती वदति वा पुराणस्य योग्य जनस्य अनुकरण अनुकरणं करणीयं भगिनी hmm. न तु दुष्ट दुष्टजनस्य परन्तु उत्तम अनुकरण अनुकरणं करणीयं भगिनी hmm. hmm. सत्यम् इत्युक्ते तत्र अस्माकं रोल् माडेल् इति यः कः अस्ति अस्माकम् आदर्शवत् तदपि सम्यक् दृष्ट्या तस्य चयनं करणीयमस्ति यं सर्वे अनुकरणशीलाः वि लेट् फालो वद तदा वदतु एस्पेशलि ग्रेट् मीन् श्रेष्ठजनाः ये सन्ति तेषां कृते सत्यं सत्यं योग्यं धन्यवादः भगिनि भारत भारतमहोदय वदति वा आं भगिनि श्रेष्ठः श्रेष्ठपरिवारजनाः न ज्येष्ठपरिवारजनाः श्रेष्ठजनाः सज्जनाः च श्रद्धायेन कार्यं करोति तव सर्वे परिवारजनाः अनु अनुवर्तन्ति अनुसरणं कुर्वन्ति सत्यं सत्यं योग्यं योग्यं बहु सम्यक् तत्र भवतः तत्र एकवारं भवान् मां प्रेषितवान् आसीत् तत्र पौत्री अस्ति खलु भवतः पौत्री वा पौत्र या, अकती यदा भुना भातमतया संस्कृत पठन कौर वक्त शनोति तथा सह अं कर्नोती परिवार श्रेष्ठ जहाँ ज्येष्ठना कृते आचरण अतीव महत्त्वपूर्णम् अस्ति hmm. उत्तमं भवान् अधुना उत्तमतया वक्तुं शक्नोति भारत् महोदय बहु सम्यक् बहु सम्यक् तत्र आचरणं कस्य आचरणं करणीयं कस्य आचरणं न करणीयं न करणीयं करे तदपि अतीव तत्र महत्त्वपूर्ण अस्ति भगवद्गीता गैड् अस्ति भगिनीयं सत्यं सत्यं तथा महाभारत महाभारतेषु याया या कथाः सन्ति तेषामपि तत्र बोध एवं जनयति तत् आचरणं कस्य आचरणं करणीयं कस्य त्यजनं करणीयं कस्य स्वीकरणं भवति कस्य अनुकरणं करणीयम् एतत् सर्वं कीदृशम् आचरणं भवेत् कीदृशं चिन्तनं भवेत् तदपि उत्तमं एव्रीच देर् आर् गुड् थिङ्ग्स्ेव् टु लर्न् गुड् थिङ्ग्स् फ्रम् द गुड् पीपल् एण्ड् वी शुड् नाट् फालो द बेड् थिङ्ग्स् फ्रम् अण्ड् द शुड् नाट् की बेड् पीपल् टु सत्यं सतानां सतानाम् इत्युक्ते सन्तसज्जनानां सत्सङ्गानां सत्सङ्गं सहायं करोति चेत् सम्यक् भवति सत्सङ्गम् इति अस्ति खलु सत्सङ्गं करोति चेत् अस्तु किं करोमि भगिनि चिन्ता गृहमेव कक्षा अस्ति तर्हि इट् इस् रेस्पान्सिबल् फार् एल्डर्स् टु बिहेव् दे शुड् बिकम् वाट् इोल्डल् रोल् मोडल् टु द चिल्ड्रन् चिल्ड्रन् इस् फालोयिङ्ग् एल्डर्स् इ दर्श इति आदर्श आदर्शवत् आचरणं भवेत् इति तेषामपि सत्यं सत्यं भगिनि अस्तु आगच्छतु भगिनी अग्रिमे वर्गे अपि धन्यवादः सर्वेषां किमपि खलु आरम्भे ऐ मीन् कथायाः विवरणं पूर्वं भवती किमपि आचार्य नाम उक्तवती शङ्कर् किमपि नाम उक्तवती किं वक्तुम् इच्छति खलु बेनि वसुन्धरा चौहा भगिनि वदतु भवत्या कथायाः लेखः नाम वसुन्धरा चौहाण् भवती ऐ मीन् नीतबेनि वाण्टेड् टु से सम्थिङ्ग् अबौट् ऐ मीन् सम् आचार्य मध्ये किमपि इण्ट्रप्शन् भवति तत्कारणात् भवती कण्टिन्यू न वयं स्थयामः मन्त्रेण समापयति वा शान्तिमन्त्रम् वदाम राधा भगिनि आम् भगिनि ओम् सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् सोमा सद्गमय तम सोमा ज्योतिर्गमय मृत्योर्मा अमृतम् गमय ॐ पूर्णमदः पूर्णमिदम् पूर्णाग् पूर्णमुदच्छते पूर्णस्य पूर्णमाया पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिशान्तिशान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ अस्तु धन्यवादः धन्यवादः